परिब्रुर्महाबाहुमेकवेणीधरा स्त्रियः सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः व्रतसन्तापजः शोको नात्र काश्चिदपीडयत् अरजांसि च वासांसि कौशिकान्यपि समेत्ययदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः ऊचुश्चैनम् हृषी केशम् सर्वास्ताः कमलेक्षणाः कन्यकावूचुः नारदेन समाख्यातमस्माकं पुरुषोत्तम आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये सोसुरं नरकम् हत्वा निशुम्भं मुरमेव च भौमम् च सपरिवारम् हयग्रीवम् च दानवम् तथा पञ्चजनञ्चैव प्राप्स्यते धनमक्षयम् सोचिरेणैव कालेन युष्मन्मुक्ता भविष्यति एवमुक्त्वा गमद्धीमान् देवर्षिर्नारदस्तथा त्वाम् चिन्तयानाः सततम् तपो घोरमुपास्महे तीते महाबाहुं कदा द्रक्ष्याम माधवम् इत्येवम् हृदि संकल्पं कृत्वा पुरुषसत्तम